अथ प्रथमाष्टके अष्टमः प्रश्नः प्रारम्भः ओ वरुणस्य शुशुबाणस्य दशकेन्द्रियम् वीर्यम् परापतत् तत्सगंस्रद्भिसमसर्पत् तत्सगं सृपाकम् सकंस्र सघंश्रित्वम् अग्निना देवेन प्रथमे हन्ननु प्रायुङ्का सरस्वत्या चा द्वितीये सवित्रा प्रसरेण द्वितीये उष्णा पशुभिश्चतुर्थे बृहस्पतिना ब्रह्मणा पञ्चमे इन्द्रेण देवेन षष्ठे वरुणेन स्वया देवतया सप्तमे सोमेन राज्ञाष्टमे त्वष्ट्रारूपेण नवमे युष्मना यज्ञेना आप्नोत् यत्सर्वम् सृपो भवन्ति इन्द्रियमेव तद्वीर्यम् यजमान आप्नोति पूर्वा पूर्वा वेगुर्भवति इन्द्रियस्य वीर्यस्यावरुध्यै सौम्येन प्रचलति सोमो वै रेतो धाः अन्तरात्वाष्ट्रेण प्रेत एव हितम् पष्टारूपाणि विकरोति उपरिष्टाद्वैष्णवेन यज्ञो वे विष्णुः यज्ञ जामिवा प्रतिष्ठति जामि वा एतत्कुर्वन्ति प्रयत्सद्यो दीक्षयन्ति सद्यः क्रीणन्ति पुन्दरिस्रजाम् प्रयच्छत्यजामि त्वाय अङ्गिरसस्वर्गम् लोकयन्तः अप्सुदीक्षा तपसि तत्पुण्डरीकमभवत् यत्पुण्डरी स्वजाम् प्रयच्छति साक्षादेवदी एक्षा तपसि अवरुन्धे दशभिर्वत्सकरेः सोमन्द्रीणाति साक्षरा विराट् अन्नम् विराट विराजैवान्नाद्यमवरुन्धे दुष्काभम् विषयम् मृत्वा च दुषपेजो भवति अन्नाद्यस्यावरुद्ध्यै शतम् रामणाः पिबन्ति शरायुः पुरुषेन्द्रियः आयुष्येवेन्द्रिये प्रतिष्ठति सप्तदशग्विस्तोत्रम् भवति सप्तदशप्रजापतिः प्रजापतेरात्यै प्राकाशावद्धर्यवे ददाति प्रकाशमेवैनम् गमयति सजमुद्गात्रे देवास्मै वासयति रुक्मगुम्होत्रे आदित्यमेवास्मा उन्नयति अश्वम् प्रस्तोतर्प्रतिहर्तृभ्याम् प्राजापत्यो वा अश्वः प्रजापतेरात्यै द्वादशपष्ठो ह्येर्ब्रह्मणे आयुरेवा वरुन्धे विशाम्यै त्रावरुणाय राष्ट्रमेव वश्यकः वृषभम् ब्राह्मणाच्छंसिने राष्ट्रमेवेन्द्रियाव्यतः वासेनेष्टापो दृभ्याम् अवित्रे एवास्येते सूर्यवाचितमख्यावाकाय अन्तत एव वरुणमवगजते अनड्वाहमग्ने वह्निर्वा अनड्वान् वह्निरग्नीत् वह्निनैव वह्नियज्ञस्यावरुन्धे इन्द्रस्य सुषुमानस्य त्रेधेन्द्रियम् वीर्यम् परापतत् भृगुस्तृतीयमभवत् श्रावीयम् तृतीयम् सरस्वती तृतीयम् भार्गवो होता भवति श्रावन्तेयम् ब्रह्म सामम् भवति पारवन्त्येयमग्निष्टोम सामम् सारस्वती रमो गृह्णाति इन्द्रियस्य वीर्यस्यावरुध्यै श्रावयन्तेयम् ब्रह्म सामम् भवति इन्द्रियमेवास्मिन् वीर्यग्निश्रयति वारवन्तेयमग्निष्टोम सामम् इन्द्रियमेवास्मिन् गीर्यम् वारयति ईश्वरो वा एष दिशो नोन्मदितोः यम् दिशो नव्यास्थापयन्ति दिशामहेष्टयो भवन्ति इक्ष्वेव प्रतितिष्ठत्यनुन्मादाय पञ्चदेवता यजति पञ्च दिशः दिक्ष्वेव प्रतितिष्ठति हरिषो हरिष इष्ट्वाबार्हस्पत्यमभिघारयति यजमानदेवत्यो वै बृहस्पतिः यजमानमेव तेजसा समर्थयति आदित्याम् मलिहाम् गर्भिणीमालभते मारुतेम् वृष्णिम् पष्ठौहीम् इषम् चैवास्मै राष्ट्रम् च समीचीदधाति आदित्यजा पूर्वजा प्रचलति मारुत्योत्तमया राष्ट्र एव विश्वनुबध्नाति उच्चैरादित्या या आश्रावयतिंशु मारुत्यै तस्माद्राष्ट्रम् शमति वदति गर्भिण्यादित्या भवति इन्द्रियम् वै राष्ट्रने अगर्धा मारुते विद्वै मरुतः दिशमेव निरिन्द्रियामकः देवासुरासंन्यता आसन् ते देवा अश्विनाः पूषण्वाचः सत्यगम् सन्निधाय अनृतेनासुरा नभ्यभवन् ते शुभ्या अम्बूष्णे पुरोडा शन्द्वादशकपालन्निरवतन् ततोऽपैते वाचः सत्यमवारुन्धत रजस्विभ्याम् कूष्णे पुरोडा षन् द्वादशकपालम् निर्भवति अनृते नैव भ्रातृव्यानभिभोज वाचः सत्यमवरुन्धे सरस्वते सत्यवाचे चरुम् पूर्वमेवोदितम् उत्तरेणाभिगृह्णाति सवित्रे सत्यप्रसवाय पुरोडा षन् द्वादशकपालम् दूतान् प्रहिणोति आविद एता भवन्ति आविदमेवैनम् गमयन्ति अथो दूतेभ्य एव न छिद्यते तिसृभन्वगम् शुष्कऋतिर्दक्षिणा समृद्ध्ये आग्नेयमष्टाकपालम् निर्वपति तस्माच्छिशिरे कुरु पञ्चालाः प्राञ्चो यान्ति सौम्यम् चरम् आत्मसन्तम् व्यवसायादयन्ति सावित्रम् द्वादशकपालम् तस्मात् पुरस्ताद्यवानागुम् सवित्रा विरुन्धते बालहस्पत्यञ्चरम् सवित्रैव विरुध्य ब्रह्मणायवानादधते त्वाष्ट्रमष्टाकपालम् रूपाण्येव तेन कुर्वते वैश्वानरम् द्वादशकपालम् तस्मा जेनैलाघे प्रत्यञ्चः कुरु पञ्चालान्ति सारस्वतम् चरुन्भवति तस्मात् प्रावृषि सर्वा वाचो वदन्ति कौष्णेन व्यवस्यन्ति मैत्रेण कृषन्ते वारुणेन विधृतासते क्षेत्रपत्येन वाचयन्ते आदित्येनादधते मासिमास्येतानि हवेगुंशु निरुप्याणीत्याहुः तेनैवत्तोऽन्प्रयुङ्क्त अथो खल्वाहुः कः संवत्सरम् जीविष्यतीति षडेवपोर्वेद्युर्निरुप्याणि षडुत्तरेद्युः ते तेनैवतोऽन्प्रयुङ्क्ते दक्षिणारथवाहनवाहस्वरूपेषाम् दक्षिणा उत्तर उत्तरेषाम् संवत्सर सीमान्तो युनक्त्ये सुवर्गस्य लोकस्य समष्टे इन्द्रस्य शुषुवाणस्येन्द्रियम् वीर्यम् पदावदत् स यत्प्रथमम् निरुष्ठीवत् तदमभवत् यद्वितीयम् तद्वदरम् यत्तृतीयम् तत्कर्कन्धो यन्नस्तः स शिबृंह यदक्षोः स सार्दूलः यत्कर्णयोः स वृणः सा वाचि सासुराः त्रयाः सक्तवो भवन्ति इन्द्रियस्यावरुध्यै त्रयाणि लोमानि कृषिमेवावरुन्धे न वदे पुरुषे प्राणाः नाभिर्दशने प्राणान्द्रियम् वीर्यम् प्राणानेवेन्द्रियम् वीर्यम् यजमान आत्मम् भग्रे शेषे न क्लीबाच्छष्पाणि क्रीणाति न वा एतदयोनिरण्यम् यत्शेषम् स्त्री न पुमाने यः यत्सोऽत्रामणि समृद्ध्यै स्वादीन् द्वास्वादुनेत्याह सोममेवेणाम् करोति सोमास्य ध्याम् पक्ष्यस्व सरस्वत्ये पक्ष्यस्वेन्द्रायसुत्राणे पक्ष्यस्वेत्याह एताभ्यो ह्येषा देवताभ्यः पच्यते तिन्द्रः दृष्टावसति तिस्रो हि रात्रेः क्रीतः सोमो वसति पुना तु ते परिश्रुतमिति यजुषा पुनादिव्यावृत्यै पवित्रेण पुनाति पवित्रेण हि सोमम् पुनन्ति वारेण शश्वतातनेत्याह वारेण हि सोमम् पुनन्ति वायुः पोतः पवित्रेणेति नैतजा पुनीयात् निर्धा कुविदङ्गेऽत्यनिरुक्तया प्राजापत्यया गृह्णाति अनिरुक्तः प्रजापतिः प्रजापतेरात्यै एकजर्चा गृह्णाति एकधैव यजमाने वीर्यम् दधाति आश्विनम् धूम्रमालभते अश्विन उपै देवानाम् भिषचो ताभ्यामेवास्मै भेषजम् करोति सारस्वतम् मेषम् वाग्वै सरस्वती वाचै वैनम् भिडज्यति ऐन्द्रमृषभगुंसेन्द्रत्वाय यत्रिषु योपेष्वालभेत बह्यस्मादिन्द्रियम् वेद्यम् दध्यात् भ्रातृर्यमस्मे जनयेत् एकयोप आलभते एकदैवास्मिन् इन्द्रियम् दधाति नास्मे नैकेषाम् पशूनाम् पुरोडाशा भवन्ति ग्रहपुरोडाशाह्येते युभगम् सुराममश्विनेति सर्वदेवत्ये याज्यानुवाक्ये भवतः सर्वा, याज्यानु सर्वा एव देवताः प्रीणाति ब्राह्मणम् परिक्रीणीयादुच्छेषणस्य पातारम् ब्राह्मणो ह्याहुत्याच्छणस्य पाता य ब्राह्मणन्नबिन्देर् वल्मीकपपायामवनगेर् सैव ततः प्रायश्चित्तिः यद्वैसोऽप्रामण्येऽपि रुद्धम् तदस्यै समृद्धम् नानादेवत्याः पशवश्च पुरोडाशाश्च भवन्ति समृद्ध्यै ऐन्द्रः पशूनामुत्तमो भवति ऐन्द्रः इन्द्रिये एवास्मै समीची दधाति पुरस्तादनुजानाम् पुरोडाशैः प्रचलति कुशरो वै पुरोडाशाः पशूनेवावरुन्धे अयिन्द्रमेकादशकपालम् निर्वपदी इन्द्रियमेवावरुन्धे स्वामित्रम् द्वादशकपालम् प्रसोत्यै वारुणम् दशकपालम् अन्तत एव वरुणमवयजते बड वा दक्षिणा उत वा एषाश्वगुंसूते उताश्वतरम् उत सोम उत सुरा यत्सो ब्राह्मणे समृद्ध्यै बार्हस्पत्यम् पशुम् बृहस्पतिः ब्रह्मणैव यज्ञस्य व्यर्थमपि वपदि प्रोणाशवादेश पशुद्भवति नह्येतस्य ग्रहम् गृह्णन्ति सोमप्रतीकाः पितरस्तृक्नुतेति शता तृण्णायागुम् समवनयति शता जषः शतेन्द्रियः आयुष्येवेन्द्रिये प्रतिष्ठति दक्षिणेऽग्नौ जुहोति पापवस्य सस्यव्यावृत्यै हिरण्यमन्तरा शतमानम् भवति शता दुःपुरुषः शतेन्द्रियः आदिष्येवेन्द्रिये प्रतितिष्ठति यत्रैव शता दृण्णान्धारयति तन्निदधादिप्रतिष्ठित्यै वा एतस्येन्द्रियम् वैर्यम् गच्छति यदम् सोमोऽपवते दृणाञ्या आद्यानुवाक्याभिरुपतिष्ठते यदेवास्य पितृरिन्द्रियम् वैर्यम् गच्छति तदेवावरुन्धे चतुर्भिरुपतिष्ठते तृतीयेव इतो लोके पितरः तानेव प्रीणाति अधोत्रीन्य यज्ञस्येन्द्रियाणि अध्यर्युर्होता ब्रह्मा त उपतिष्ठन्ते यान्येव यज्ञस्येन्द्रियाणि तैरेवास्मै भेषजम् करोति अग्रिष्टो मम अग्र आहरति यज्ञमुखम् अग्निष्टो वा अग्निष्टोमः यज्ञमुखमेवारभ्य सवमाक्रमते अशेषोऽभिषेचनीयश्चतुस्त्रिपुंश पवमानो भवति त्रयस्त्रिपुंशद्वै देवताः ता एवाप्नोति प्रजापतिश्चतुस्त्रिपुंशः तमेवाप्नोति सगुंशरकेशस्तोमा नाम यथापूर्वम् यद्विषमास्तोमाः एतावानलैरज्ञः यावान् पवमानाः अनन्तःश्लेषणम् वा अन्यत् यः समाः पवमानाः तेनाशंसरः तेन यथा पूर्वम् आत्मनैवो मे नर्ध्नोति आत्मना पुण्यो भवति प्रजा उक्थानी उक्थानि उक्थानी उक्थानि यदुक्थो उभक्त्वा जामयोगिर इति प्रतिबद्धवति वाग्मै वायुः वाच एवेषोऽभिषेकः सर्वासामेव प्रजानागम् सूजते सर्वा प्रजाराजेति वदन्ति एतमुत्यन्तशक्षि परित्याः आदित्या वै प्रजाः प्रजानामेवैतेन सूयते यन्ति एते यज्ञमुखार ते सम्भार्याक्रण् यदा हपवस्व वाचो अग्रिय इति तेनैव यज्ञमुखान् नयन्ति अनुष्टप्रथमा भवति अनुष्टगुत्तमा वाग्वा अनुष्टग् वाचैव प्रयन्ति वाचोद्यन्ति उद्वतेर्भवन्ति उद्वद्वा अनुष्टुभो रूपम् आनुष्टुभो राजन्यः तस्मादुद्वतेर्भवन्ति सौर्यनिष्टगुत्तमा भवति स्वर्गस्य लोकस्य सन्तत्यै यो वै समादेति नैनगुम्सव उपनमति यः सामभ्यतेति आदीयान् सुश्रुवाणो भवति एतानि खलु वै सामानि तैरेव समान्न इति यानि देवराजा नगुम् सामानि तैरमुष्मिल्लोकरुध्नोति यानि मनुष्यराजानागुंसामानि तैरस्मिल्लोकरुध्नोति उभयोरेव लो लोकयोरिर्ध्नोति देवलोके च मनुष्यलोके च एकविपुंशोऽभिषे च नीलस्योत्तमो भवति एकविपुंसः केशवनीलस्य प्रथमः सप्तदशोदश पेयः विद्वा एकविपुंशः राष्ट्रगुंसक्तदशः एवैतन्मध्यतोऽभिषिच्यते तस्माद्वा एष विषाम् प्रियः दिशो हि मध्यतोऽभिषिच्यते यद्वा एन मदो दिशो रम् व्यास्थापयन्ति तत्स्वर्गम् लोकमभ्यारोहति यदिमम् लोकम् न प्रत्यवरोहेत् अनिजनम् य देशप्रतीचीन स्तोमो भवति इममेव तेन लोकम् प्रत्यवरोहति अथो अस्मिन्नेव लोके प्रतितिष्ठत्यनुन्मादाय इयम् वैरजता असौ हरिणी यद्रुक्मौ भवतः आभ्यामेवैनमु भजतः परिगृह्णाति वरुणस्य वा अभिषिच्यमानस्यापः इन्द्रियम् तत्सुवर्णकम् हिरण्यमभवत् यद्रुक्मवन्तर्दधाति इन्द्रियस्य वीर्यस्य निर्घाताय शतमानो भवति शतक्षरः शताजुः पुरुषः सतेन्द्रियः आयुष्येवेन्द्रिये प्रतिष्ठति आयुर्वैहिरण्यम् आयुष्या एवमभ्यदिक्षरन्ति तेजो वै हिरण्यम् तेजस्या एवमभ्यदिक्षरन्ति वर्चो वै वर्चस्या एवेन मभ्यतिक्षरन्ति अप्रतिष्ठितो वा एष यत्याहुः यो राजसूयेन यजत इति यदा वा एष एतेन द्विरात्रेण यजते अथ प्रतिष्ठा अथ संवत्सरमाप्नोति यावन्ति संवत्सरस्याहो रात्राणि तावतीरेतस्य स्तोप्रियाः अहोरात्रेष्वेव प्रतितिष्ठति अग्निष्टो मह पूर्वमहर्भवति अतिरात्र उत्तरम् नानेवाहोरात्रयोः प्रतितितिष्ठति ओर्णमास्याम् पूर्वमहर्भवति यष्टकायामुत्तरम् नानेवार्धमासयोः प्रतितिष्ठति अमावास्यायाम् पूर्वमहर्भवति उद्दिष्ट उत्तरम् नैव मासयोः प्रचतिष्ठति अथो खलु ये एव समानपक्षे पुण्या हे स्याताम् तयोः कार्यम् प्रतिष्ठ्यत्यै अपशव्यो द्विरात्र इत्याहुः द्वे ह्येते दे छन्दसि गायत्रम् न तेन जगति यदेनाम् तृतीयसवने कुर्वन्तीति यदा वा एषा हीनस्याहजते साहनस्य वासवनम् अथैव जगती कृता अथ पशव्यः युष्टिर्वा एष द्विरात्रः य एवम् विद्वान् द्विरात्रेण यजते येवास्मा उच्छति अथोत्तम एवामहते अग्निष्टाममन्थत आहरति अग्निः सर्वा देवताः देवता सेव प्रतितिष्ठति हरिः ओ इति प्रथमाष्टके अष्टमप्रत्यः